मरेशधूतकोकबन्धवे नमः शिवाय शिवाय नाम शोषिता नमद्भवान्धवे नमः शिवाय शिवाय शिवाय पामरेतरप्रधा वे नमः शिवाय शिवाय शिवाय कालभीतविप्रबालपालते भी नमः शिवाय वस्तु मुख्यदानहेतवे नमः शिवाय नमः शिवाय नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय नमः शिवाय ॐ नमः शिवाय सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय नमः शिवाय namah shivaya om ashtamurti vrshendra ketasve namah shivaya om namah shivaya om भेदटङ्कहस्तते नमः शिवाय पापहारि दिव्यसिन्धुमस्तते नमः शिवाय शिवाय पापहारिनेलसन्नमस्तते नमः शिवाय पदोषखण्डनप्रशस्तते नमः शिवाय शिवाय शिवाय व्योमकेशदिव्यभव्यरूपते नमः शिवाय य नाममात्रदग्धसर्वपापते नमः शिवाय शिवाय कामनैकतानकृद्दुरापते नमः शिवाय कावलिनिबद्धते नमः शिवाय ॐ नमः शिवाय नमः शिवाय जिंहकेन्द्रकुण्डलप्रसिद्धते नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय ॐ नमः शिवाय यो जिंहकालदेहदत्तपद्धते नमः शिवाय कामनाशनाय शुद्धकर्मणे नमः शिवाय ेमकान्तिचाकचक्यवर्मणे शिवाय शिवाय सामजासुरङ्गलब्धचर्मणे नमः शिवाय Om Namah Shivaya Om Namah Shivaya Om Takshapani Shobhikaanchanaalave Namah Shivaya Om Namah Shivaya Om Namah Shivaya Om Akshiraj Vaha Hrichhaya Lalave Namah Shivaya Om Namah Shivaya Om Namah Shivaya अक्षिपालवेद पूततालवे नमः शिवाय शिवायवाय दक्षहस्तनिष्ठजातवेदसे नमः शिवाय शरात्मने नमद्विढौ जसे नमः शिवाय दीक्षितप्रकाशितात्मतेजसे नमः शिवाय शिवाय क्षराजवाहते सतां गते नमः शिवाय शिवाय शिवाय राजताचलेन्द्रसानुवासिने नमः शिवाय शिवाय शिवाय राजमानमि शिवाय ॐ शिवाय ॐ शिवाय राजकोरकावतं सभासिने नमः शिवाय शिवाय शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय ॐ शिवाय शिय मधेनवे नमः शिवाय नमः शिवाय ॐ नमः शिवाय सूनपाडदाहकृशानवे नमः शिवाय नमः शिवाय ॐ नम शिवाय स्वानुरागभक्तरत्नसानवे नमः शिवाय नमः शिवाय ॐ नम शिवाय न्धकारचण्डमानवे नमः शिवाय शिवाय शिवाय सर्वमङ्गलाकुचाग्रशायिनी गणातिशायिने नमः शिवाय पूर्वदेवनाशसंविधायिने नमः शिवाय नतोऽपि तोषिणे नमः शिवाय शिवाय शिवाय नैकजन्मपापजालशोषि कपालिने नमः शिवाय ॐ नमः शिवाय ॐ नमः शय दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय ॐ नमः शिवाय नमः शिवायो शर्वरेशधारिणे कपालिने नमः शिवाय ॐ नमः शिवाय नमः शिवाय देहिने वरंसितादृगेहतेषिकामी समूहते प्रसन्नकामदोहते नमः शिवाय शिवाय शिवाय मङ्गलप्रदाय कोतुरङ्गते नमः शिवाय शिवाय गङ्गया तरङ्गितोत्तमाङ्गते नमः शिवाय ैरिभङ्गते नमः शिवाय नमः शिवाय नमः शिवाय अङ्गचारये करे कुरङ्गते नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवाय प्रदानहेतवे नमः शिवाय नमः ओम्नम शिवाय ॐ शिवाय पाहिताग्निपालकोषकेतवे नमः शिवाय नमः शिवाय शिवाय देहकान्तिधूतरौप्यधातवे नमः शिवाय ॐ नमः शिवाय <उम्नमस्षिवाया> पुञ्जधूमकेतवे नमः शिवाय त्यक्षती न सकृपाकटाक्षते नमः शिवाय रक्षसप्तन्तुनाश दक्षते नमः शिवाय वृक्षराजभानुपावकाक्षते नमः शिवाय रक्ष मां प्रपन्नमात्र रक्षते नमः शिवाय शिवाय ञ्जुपाणये शिवङ्करायते नमः शिवाय शिवाय सङ्कटाभितीर्न किङ्कराय ते नमः शिवाय शिवाय शिवाय पङ्कभीषिताभयङ्कराय ते नमः शिवाय शिवाय शिवाय पङ्कजाननाय शङ्कराय ते नमः शिवाय शिवाय शिवाय Oṁ Namāśśi Vāya Vōṁ Oṁ Namāśśi Vāya Vōṁ Sharma Dāya Narya Bhasma Kāṇṭa Te Namaśśi Vāya Oṁ Namāśśi Vāya Vōṁ Mirma Marushi Sēvi Tōpa Kāṇṭa Te Namaśśi Vāya Vōṁ िवायो कुर्महे न तीर्नमद् विकुण्ठते नमः शिवाय शिवाय विष्ठपाधिपाय नम्र विष्णवे नमः शिवाय प्रहृद्गुहा च वैष्णवे नमः शिवाय शिवाय शिवाय इष्टवस्तुनि यथुष्टजिष्णवे नमः शिवाय शिवाय शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय शिवाय प्रमेय दिव्यसुप्रभावते नमः शिवाय सत्प्रपन्नरक्षण स्वभावते नमः शिवाय स्वप्रकाशनिस्तुलानुभावते नमः शिवाय विप्रडिम्भदर्शितार्द्रभावते नमः शिवाय शिवाय शिवाय सेवकाय मे मृडप्रसीदते नमः शिवाय नमः शिवाय नमः शिवाय लभ्य तावकप्रसादते नमः शिवाय शिवाय शिवाय पावकाक्षदेव पूज्यपादते नमः शिवाय नमः शिवायो नमः शिवायो पावकान्द्रिभक्तदत्तमोदते नमः शिवाय नमः शिवाय क्तिदिव्यदायिने शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय भक्तसङ्कटा योगिने नमः शिवाय शिवाय शिवाय युक्तसन्मनो सरोजयोगिने नमः शिवाय शिवाय शिवाय हन्तकान्तकाय पापहारिणे नमः शिवाय दन्ति चर्मकारिणे नमः सन्तताश्रितव्यथाविदारिणेवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय शूलिने नमो नमः कपालिने नमः शिवाय ॐ नमः शिवाय ॐ नम शिवाय पालिने विरञ्चितुण्डमालिने नमः शिवाय ॐ नमः शिवाय नमः शिवाय शेषरुण्डमालिने नमः शिवाय ॐ नमः शिवाय ॐ नमः शिवायो शीलिने नमः प्रपुण्यशालिने नमः शिवाय नमः शिवाय नमः शिवाय शिवपञ्चाक्षरमुद्राम् चतुष्परोल्लासपद्यमणिघटिताम् दधरुपकण्ठं नरो हवे सोमः ॐ न महिषिवाय ॐ पूर्णमशिवाय ॐ न महिषिगाय ॐ पूर्णमहिषिवाय शिवाय ॐ पूर्णमह शिवाय ॐ न महि Namah Shivaya Namah Shivaya